मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं सिक्स् योगिचित्तानुभवशान्ति सुखवर्णनयोगं श्रीगणेशाय नमः दक्ष उवाच योगस्यानुभवं ब्रूहि यत्र शान्तिं लभेन्मनः रसं त्यक्त्वा सुशान्त्या तद्युक्तं तिष्ठेन् महामुने मुद्गल उवाच न तत्र दृश्यदे देदक्ष जगद्ब्रह्मभवं सुखं तन्मायामयगं दृष्ट्वा तस्मान्निर्वृत्तिगो भवद नाहं देहो न मे देहो नाहं नानाभ्रमान्विदः चराचरमयो नैव ना ताभ्यां संवर्जितो न च न समष्टि समायुक्तो व्यष्टिगो न कदाचन ब्रह्माहमखिलेष्वेव तत्तद्भावविवर्धितः न ना बाह्यसुखभोक्ताहं नान्तरस्तपरायणः न ना समानगदोऽहं तु नात्मप्रीतिति तारकः न ना स्थूलो नैव सूक्ष्मोऽहं नानन्दगः कदाचन न नाददेहसंस्त सर्वकारः सदा मदः चतुष्पादाः सन्धिमे चेन्मायया सन्धृता मया मायाहीनप्रभावेण पादहीनोहमञ्जसा मायायुक्तवियुक्तत्वं मयि नैव प्रतिष्ठितं मायासंस्थापितं द्वन्द्वं तदप्याश्चर्यमुत्तमम् अनेनानुभावेनैव योगी बिन्दुगतो भवेत् तत्र दीनस्वभावेन सदा शान्त्या प्रवर्तते अथा संभेदहीनश्च न भेदो मयि वर्तते सदा सन्दतभावेन संस्थितोऽत्र निरन्तरं न सृजामि हरम्येव निश्चितम् स्वयमेव जगद्भाधि यथा मयि धृतं उत्पन्नं स्वस्वभावेन नष्टं तथा विश्वं तत्र न मे हानिर्वृद्धिर्भवति न विश्वस्मिन्नहं जीवो न शिवः साक्षि भावगः भ्रान्त्या मायायुधं हीनं वदन्त्ययोगिनः सदा यथाकाशभवमेखपटलं सर्वतस्थितं तत्र सूर्यस्य किं दक्षाच्छादनं सम्भवेत्कदा नष्टेभ्रे किं रविस्साक्षाच्छादनेन विवर्धितः तथा मोहविमोहौ च मयिभ्रान्त्या ये सदैकात्मस्वरूपाख्ये मयि मोहविमोहकौ कथं भेदौ प्रवर्तेते पश्य माया प्रभावजौ तथापि विश्वसंयुक्तो मोहितोऽहं न संशयः ज्ञात्वात्मानं विमोहोऽहं सदा साक्षी न संशयः मयया जीव तथा शिवो न संशयः मयि ब्रह्मणि विश्वं तद्दृश्यते नैव दृश्यते एवं ज्ञात्वा स्वयं योगी सदा शान्त्या प्रवर्तते द्वन्द्वभावं परित्यज्य सोऽहं ब्रह्मणि संस्थितः अतः परं प्रवक्ष्यामि ब्रह्मानुभवरूपकं न देहो नैव देहस्तोऽहं भवामि कदाचन सन्ततं मयि नास्त्येव विश्वं मयि न विद्यते भेदाभेदविहीनत्वात् ब्रह्म ब्रह्मण्यसंरतः विश्वरूपोऽहमेवेदं मयि सर्वं प्रतिष्ठितं विश्वहीनो ससृष्टं पाल्यते नैव ह्रियते न मया कदा विश्वं सृष्टं हृदं नित्यं पालितं सर्वदा मया मयि सन्दतभावश्च दृश्यते न विनिश्चितं न विश्वं विविधाकारं नानादेहपरायणं सदा बोद्धमयोऽहं तु देहदेहि युद्धस्तथा मम तत्र नभो दक्ष बन्धबन्धौ प्रकीर्तितौ मायया संयुधो नित्यं देहदेहि मयो मदः मायाहीनप्रभावेण देहदेहि विवर्जितः मायायुक्तवियुक्तत्वं मयि कुत्र प्रदर्श्यते सदाखं बोधरूपाख्यो ब्रह्मणि ब्रह्मभाविदः एवं बोधात्मकेनैवानुभवेन प्रजापदे योगीयोगसमायुक्तः सदा चान्द्या प्रवर्तते अतः विबोधाख्यं वक्ष्यामि ब्रह्मभूतकं प्रकृतिर्न तथा दक्ष पुरुषोऽहं न तयोर्योगेन बोधोऽहं ब्रह्माकं भोगवर्धितः सदा ब्रह्मणि संस्थश्च केलहीनप्रभावदः मिथ्यारूपं जगत् सर्वं जगदात्मा तथा मदः तयोर्योगपरं ब्रह्म मिथ्या मूलप्रकाशकं मयि ब्रह्मणि नास्त्येव प्रकृतिर्वा पुमान् कुजित् तयोर्योगो भ्रमकार सदा केलपरायणः बोधे बोधेनोत्थानभावश्च जायते ब्रह्मणः सदा मिथ्याभूतं तदेवापि कथं मयि प्रवर्तते सत्यं ब्रह्म यदि प्रोक्तं वेदेषु वेदवादिभिः तत्र खेलो नृतकार तिष्ठति भ्रान्तितः सदा ब्रह्मसुखे सक्तो ब्रह्मणि ब्रह्मभाविदः तत्र भेदादिकं नास्ति त्री पुं भावमयं कदा मायया रचिता सर्वमनुर्दाख्यं न संशयः सा मयिनस्ति दक्षनिराधारा भ्रमान्विता ब्रह्मरूपं च दृष्ट्वा स्वयमेव विनश्यति माया तदा साक्षात् सत्यरूपो भविष्यति यद्यहं मायया युक्तस्तया स्त्री पुंमयं जगत् सृजामि चेत्तदा सत्यं कुतः प्रतिष्ठति यत्रा नृतस्वरूपं तु नास्त्येव वेदवादतः तदेव सत्यमाख्यादमधो बोधो न दृश्यते अनृतं विश्वमखिलं प्रकृति पुरुषात्मकं तस्माद्भिन्नोऽगमेकश्च सत्यरूपो न योगेन एतादृशेनैव शान्तियुक्तो भवेन्नरः साङ्ख्यां त्यक्त्वा सविविधां ब्रह्मभूतस्वभावदः अधस्वानन्दयोगं तु वदिष्यामि हितायते तं शृणुष्व प्रजानाथ सावधानेन चेतसा सत्यमुद्धानहीनं चान्रदमुत्थान संयुतम् ब्रह्मणि द्विविधं नास्ति स्वस्वरूपिणि नित्यदा बोधयुक्तं स्वतोद्धानं सांख्यमुद्धानवर्जितं तयोर्योगे परं ब्रह्मा सत्स्वानन्दमयं भवेद उत्थानवर्जितोऽहं नोद्धानयुक्तोऽपि नाञ्जसा उद्धानयुक्तहीनोऽकं पश्य मे योगमुत्तमम् मयि ब्रह्मणि सर्वं तत् स्वस्वरूपमयं भवेत् तत्रोद्धानेन युक्तत्वं हीनत्वं नैव दृश्यते अहो मायाप्रभावेण मां वदन्ति विमोहिताः उद्दानेन युधं हीनं स्वस्वरूपं निजेरदम् उत्थानसंयुधं ब्रह्मोद्धानहीनं प्रकीर्तितं ब्रह्मणि तन्मयं सर्वं संयोगायोगभावतः मयि ब्रह्मणि संयोगो जायते योगिनां यदा उत्थानेन युगं हीनं कः पश्यति ततः परम् समाधिहीनभावेन पश्यन्ति सदा अयोगिनो योगिनां वै सर्वं ब्रह्मेदि वेदेषु कथ्यते वेदवादिभिः अधो मायां ब्रह्माकारो भवे नरः अनेन विधिना योगं साधयेद्य समाधिना ब्रह्मणि ब्रह्मभूतस्स शान्तिं प्राप्नोति शाश्वतीम् अधः सत्स्वस्वरूपस्य विधेर्योगं वदामि भोः तं ज्ञात्वा योगमार्गेण योगी भवति मानवः सर्वब्रह्मेदिवेदेषु कथितं नात्र संशयः तदेवोपाधिसंयुक्तं सर्वं मायाप्रभावतः एकमेव द्वितीयं यत् ब्रह्मवेदविवादतः तत्र सर्वं कुतोभाधि नानाभावपरायणं नागमुद्दानसंयो कुतो नागमुद्दानवर्जितः तयो योगमयोऽहं नाद्वितीयेऽस्मिन् स्थितः सदा न सत्यं मयि नास्त्येवानृतं तत्संयुतं परम् ब्रह्म संयोगदं नास्ति सदाहं ब्रह्म संज्ञकः न मया सत्यरूपं तु सृष्टं नानृतरूपकं तयोर्योगमयं नैव मृदोऽहं चात्मभावदः आदिमध्यान्तभावाश्च कुतो मयि भवन्दिरे सदा मृदमये संस्तोऽहमात्मा ब्रह्मभाविदः मायया संयुगा सर्वे सर्वेषां सर्वे जीवनं परं मां वदन्ति विशेषेण मयि सर्वं न विद्यते सर्वात्मकं परं ब्रह्म नाना खेलयुधं भवेद् खेलहीनं भवति च तदेवपि तयोः परं तत्राहं नागतो दक्ष न ना गतोऽपि कदाचन स्वयमेव भवेत् पश्य जीवनं मे प्रभावतः तत्र किं मयि सर्वात्मविकारो दृश्यते कदा भ्रान्तियुक्ता मां वदन्ति जीवनं ब्रह्मणां परम् ब्रह्मणां जागदां नैव जीवनं सन्धृतं मया स्वयमेव प्रभावेण मयि तद् दृश्यते वृथा सदा ब्रह्मणि संस्तोकं भेदाभेदाधिवर्जितः अद्वितीयप्रभावेणात्माकं पूर्णस्वभावदः अनेन योगमुखेन योगी संज्ञायते नरः ब्रह्मणि ब्रह्मभूदत्त्वा चान्दीयुक्तो भवेत् सदा अतः परं समाख्यं यद्ब्रह्मानुभवरूपकं कथयामि महाप्रीत्या येन योगी भवेन्नरः नाकं सर्वात्मको दक्ष नाकमात्मात्मकः कथा आनन्दोऽहं तयोः साम्ये ब्रह्मणि ब्रह्मभावदः मया मायाबलेनैव सर्वात्मकं प्रतिष्ठितं ये के वा द्वितीयाख्यं तयोः साम्येहमास्थिदः ब्रह्मणि सर्वभावश्च भावहीनं कुतो भवेद अमृतमृतमूलं यन्नास्त्येव मयि सर्वदा अनन्तलीलया युक्तं लीलाहीनं न विद्यते मयि लीलायुधं हीनं वर्तते पश्य मे महः अखण्डरूपभावेन संस्थितोकं सदा मलः नानाविकारहीनत्वा द्वाभ्यां ब्रह्मणि सर्वभावश्च वर्तते नात्र संशयः सदात्मभावस्तत्रैव साम्यं वेदे तदस्मृतं यद्यत्सङ्कथ्यते वेदे तेषु ब्रह्मस्थितं मदं न वर्ण्यते तथा तत्र न तत् ब्रह्ममयं किल अतः समं समाख्यातं ब्रह्मवेदविवादतः आनन्दोऽहं न सन्दोहो ब्रह्म ब्रह्मसुसंस्थितम् अनेनानु भवेनैव शान्तियुक्तो नरो भवेद् अधस्ते व्यक्तसंज्ञस्थं कथयामि प्रजापदे ब्रह्मानुभवमाकात्म्यं येन योगी भवेन्नरः अहमव्यक्तरूपश्च त्रिभिर्हीन सदा मदः त्रिषु मोहविहीनोऽहं सर्वात्मकं मयि नास्ति तथा मृदमयं न च साम्यं स्वाधीन संज्ञेधब्रह्मणि नन्दनात्मकम् उद्धानयुक्तहीनाख्यो मोहः सर्वमये स्थितः सदा मृदमयो मोहो खण्डब्रह्मणि गद्यते नन्दनं सर्वभावेषु समर्त्वान्मोहरूपकम् सदा स्वाधीनता तेषु कुतस्त्रीषु भवेत् किल त्रिभिर्युक्तोकमत्यन्तं तदभित्रिविमोहतः भिन्न सदा त्रयाणं तु नेधि करुताकमञ्जसा खा नानाभावसमयुक्तं भावहीनं ततः परं साम्यमुभयगं तेभ्यः परो व्यक्रस्तद सृष्ट्वाहं त्रिविधां तत्र केलकरो मुद मोहीनोऽहं मायाया स्वप्रभावदः मदात्मया त्रयं नित्यं चलत्यत्र न संशयः स्वस्व्यापारसंयुक्तं स्वाधीनोऽहं प्रभावधः त्रयाणामन्तरे प्रज्ञस्तिष्ठाम्यत्र न संशयः ममान्तरे कोऽपि न वै स्वस्वभावेषु नित्यं तु प्रेरकस्त्रिषु संस्थितः तथापि नैव मे मोहो नाकं प्रेरक उच्यते अहमव्यक्तरूपश्च वेदे सङ्कथितो मतः नेह नानास्ति भावाख्य सदा नानात्रिवर्जितः नेहनाप्रमाणेना नाना व्यक्तं ब्रह्मसनातनम् तदेवाकं सुखे सक्रः सदा ब्रह्मणि यो गतः सर्वेषां नेतिकर्ताकं महादण्डधरप्रभुः नेति कर्ता नास्ति मे कास्तेन ना व्यक्तोऽहमञ्जसा मनोवाणीविहीनोऽहमव्यक्तपरमो मदः अनेनानुभवेनैव शान्तिं प्राप्नोति मानवः अधपूर्णनिजानन्दानुभवं शृणुसौच्यतं येन स्वानन्दसंयुक्तो भविष्यसि महामदे अहं ब्रह्ममयः साक्षान्मयि मोहविवर्जितं कुतो मोहयुधं ब्रह्म निजरूपे भवेत् कदा महावाक्ययुधा वेदा यदा लीना समाधिना तदा स्वानन्दका प्रोक्ता पश्यवेदे महात्मभिः अहं भावयुतो जन्तुर्मायया तुर्यभावया मोहीनश्च युक्तश्च भवति भ्रमभावतः चतुर्विधमया सृष्टं नानाभावपरायणं भावहीनं समानं चाव्ययं तेषु स्थितेन वै ब्रह्म दोषविहीनं तु दोषयुक्तं प्रकीर्तितं साम्यं नेदिमयं वेदे चतुर्हीनपरं भवेद् स्वानन्दे तन्मयो योगी भवदे यत्समाधिना न पश्यति पुनर्ह्यत्र च दुर्षु मोहितात्मसु समाधिना, समाधिना युतो योगी निजरूपे लयम् गतः न पुनर्दर्शनं तस्य तेषां तत्र प्रवर्तते कीदृशोऽकमिमामायाम् यत्यक्त्वा योगसंयुगः ब्रह्मणि ब्रह्मभूतस्य भवति स्वस्वरूपिणि यदा ब्रह्मणि योगेन तन्मयो भवति स्वयं स्वपराधिगमे वेदं पुनर्वदकुत प्रभो अहं ब्रह्मेदि यत् प्रोक्तं पश्य वेदे विचारदः तेनैव कृतकृत्यस्य भवति योगसेवया एवं संयोगयोगेन भवेद्ब्रह्मणि तन्मयः शान्तियुक्तस्य वै साक्षाद् वर्तते शान्तिधारकः अधः परमयोगाख्यं वदामि योगमुत्तमं तत्रानुभवमात्रेण शान्तियुक्तो नरो भवेद् अहं ब्रह्मेदि यत् प्रोक्तं कुतस्तत्र भवेदिदं तन्मयत्वं प्रजानाध ब्रह्म ब्रह्मणि संस्थितं ब्रह्मवाणीविहीनं च मनोगतिविवर्जितं तदेव नागतं कुत्र न ना ब्रह्मणि गत पुनः यदा भिन्नं विहारेषु संसक्तं जायते परं तदा योगेन स्वानन्दयुक्तं भवति नान्यथा ब्रह्मब्रह्मणि संस्थं च नागदं नगदं मदं कुतो योगेन तत्रैव तन्मयो जायते नरः सदा सम्ब्रह्मरूपश्च न मायासंयुधकदा भ्रान्त्या मां नैव जानन्दि मा परम् सर्वसंयोगयोगाख्या मायानाभ्रमात्मिका मयि ब्रह्मणि सा कुत्र तिष्ठति ब्रह्मवर्जिता यथा मरीजिसंस्थं तोयं व्यर्थभ्रमप्रदं तथा मयि महामाया व्यर्था संयोगधारिका ब्रह्मदोषविहीनं तु वेदसङ्कथितं पुरा तदेव मायया युक्तं कथं भवति मोहितं भ्रान्तियुक्तं सुयोगे न भ्रान्तिहीनं भवेत्कथं ब्रह्म मायायुधा मूर्खो वदन्ति ब्रह्मवर्जिताः अदोहं नागतः पश्य सुप्रभुः न ब्रह्मणि गतत्तत्र पुनर्योगस्य सेवया ब्रह्मणि विविधा पारामया नैव प्रतिष्ठति मायायां नैव तद्ब्रह्मह्यपवादप्रभावदः अयोगस्त्रिविधप्रोक्तो मृदुमध्याधिमात्रदः तेषाम् भेदं प्रवक्ष्यामि मायामूलनिकृन्दनम् स्वदोद्धानं भ्रमं त्यक्त्वाहं ब्रह्मह्यपवाददः यस्तिष्ठति नरसोऽपि मृदुयोगयुधो मदः परतोनजं दक्षभ्रमं त्यक्त्वा ह्ययोगतः तिष्ठति मध्यगसोऽभिमदो योगस्य संयोगधारकं ब्रह्म त्यक्त्वा तिष्ठति सोऽधिमात्रगः नागतोकं यदा भ्रान्त्या जगत् योगे नैव भविष्यति ब्रह्मभूतस्वभावेन स तिष्ठति नरोत्तमः निवृत्तियोगमाश्रित्य सदा शान्त्या प्रवर्तते अधुना पूर्णयोगस्यानुभवं ते वदाम्यहं योगी येन नरो भूत्वा तिष्ठति गणपप्रियः नाहं न ब्रह्मवेदेषु कथितं भेदभ्रान्तितं ब्रह्मणि द्विविधं दक्ष कुतो अहं चित्तमयाश्चैव ब्रह्मचित्तमयं तथा चित्तं पञ्चविधं त्यक्त्वा योगी भवति मानवः जगद्रूपं महच्चित्तं ब्रह्मरूपं तथा मदं जगदां ब्रह्मणां संयोगा योगं चित्तमुच्यते भ्रान्तियुक्तं भवेत् चित्तं नाना मायाविमोहितं योगसेवापरं चित्तं भ्रान्तिहीनं तथा भवेद् अहं कुतस्तदा ब्रह्म कुतस्तयोश्च योगदः अभेदसर्वकं चित्तं क्रीडत्यत्र न संशयः नाकं सर्वत्र योगेन संयोगाभेदभावदः तिष्ठामिति तमोहेन वदन्ध्ययोगिनो मुदा ब्रह्मब्रह्मणि संस्थं यन्नागदं न गतं गदा न चित्तं तदेव सम्मदम् धर्ममिच्छति चित्तं च भ्रमयुक्तं तथार्थकं कामं मोक्षं ब्रह्मभूतं पञ्चभूमिप्रभावदः चित्तं त्यक्त्वा महायोगी पञ्चरूपं सुशान्तिकः ब्रह्मभूदो भवे न्यूनं चिन्तामणि प्रकथ्यते चित्तरूपमहाबुद्धिस्तत्र सिद्धिस्तयोः पदि साक्षात् क्रीडति स्वेच्छयापरः तं ज्ञात्वा ब्रह्मभूतश्च भवत्यत्र न संशयः सिद्धिबुद्धिमयं सर्वं त्यक्त्वा योगी प्रजापदे नैव ब्रह्मणि संयोगो न योगो वर्तते कदा सिद्धिबुद्धिभ्रमेणैव परं वाञ्छति तत्पदिः गणेशोकं न सन्देहोकुतो मयि भवेदिदम् सिद्धिबुद्धिकृतं सर्वं तेन योगी स जायते सिद्धिबुद्धिसमायुक्तो ब्रह्मभूतो नरो भवेद शान्तियोगेन शान्तिस्थो वर्तते नित्यमादराद ब्रह्मणि योगभावेन मायायुक्तविहीनता शान्तिं प्राप्त त्यक्त्वा योगं योगी जायते एतादृशभवेनैवानुभवेन युदं परं चित्तं भ्रान्तिभवं सर्वं रसं त्यक्त्वा सुतिष्ठति योगे रसमायुक्तं सदा भवति तत्परं निश्चलं शान्तिसंयुक्तं मायामलविवर्धितं यदते कदिदं सर्वमनुभवभवं सुखं यज्ञात्वा ब्रह्मभूतस्य तिष्ठत्यत्र न संशयः याध्य शृणुयाद्यपदेद्वापि योगानुभवरूपकं माहात्म्यं सलभे सर्वं वाञ्छितं शान्तिमाप्नुयाद ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमौद्गले महापुराणे नवमे खण्डे योगचरितेमुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन योगिचित्तानुभवशान्तिसुखवर्णनयोगो नाम षष्ठोऽध्यायः इति योगगीतासूपनिषत्सु सुगमासु द्वितीयोऽध्यायः ओम।